हर ओम श्री पीतामचंद्रभ्या अथ श्रीमद्दीक रायण अयोध्या अशीति तम सर्ग अयोध्या तो गंगा तटम अभिवाप्यम्य शिविर कूपा युत सुखदराज मगस निर्माण अथ भूमिपदेश सूत्रकर्म विचारदर्मा फिर शूर कनका यन्त्रकास्त कर्मान्तः स्थपतयः मार्गिणो वृक्ष तक्षकः सुप्रकारः सुधाकार वंश चर्म जनो भो विपुलप्रयान् महवेग सागरस्येव पर्वणि ते स्ववारं समास्थाय वत्मकर्मणि कोविदः करणै विविधोपेतै पुरस्ता सम्पत् स्थिरे लतावल्ली च गुल्मा च स्थाणूनश्मन एव च जनास्ते चक्रि रे अवृक्षेषु च केचित् वृक्षान् रोपयन् केचित् कुठारैष्टकैश्च दात्रैः छन्दन् क्वचित् क्वचित, अपरे वीरणस्तम्भान् बलिनो बलवत्तरः विरमन्ति स्म दुर्गाणि स्थू स्थलानि च अपरे पूरयन् कोपान् पाशुभिः स्वभ्रमयतम् निम्नभागान् तथा तथैवशु समाचक्रु समन्ततः बबन्धु बन्धनीया च शोध्यान् सञ्चुक्षुतुस्तथा बिभिदुर्भेदनीया चासान्देशान्नरास्तदा अचिरेण सुकालेन परिवाहान् बहुदकान् चक्रुर्बहुविधाकारान् सागर प्रतिमान् बहून् निर्जलेषु च देशेषु खानयामासुरुत्तमान् उदपानान् बहुविधान् वेदिकाय परिमण्डितान् स सुधा मतलह प्रपृष्टीत महीरुः मत्तो भुश्च द्विजगणः पताकाभि अलङ्कृतः चन्दनोदकसंसिक्तो नानाय कुसुमभूषितः बह्व शोभत सेनाय पन्थासूरपथोम्बमः आज्ञाप्यथ यथाज्ञप्ति युक्ता सेधीकृता नर रमणीयेषु देवेषु बहु स्वादुफलेषु च योन्वेषप्रेतो भरतस्य महात्मनः भूयस्त शोभयामासु भूषाभिभूषणोपमम् नक्षत्रेषु प्रशष्टेषु मुहूर्तेषु च तद्विदः निवेशान् स्थापयामासु भरतस्य महात्मनः भूपासु च यश्चापि त्वरिख परिवारितः सत्रेन्द्र नीलप्रतिमा प्रतोली वरशोभितः ता, प्रात् माला संयुक्ता सौध प्राकारसम्भृतः पता शोभिता सर्व सुनता महापथ विचर्पन्काछ्रितेशस्ते बभूचक्र पुरोपाधवी तू साम विध द्रम का नाम शीतला मलपनीय मीन सामकला स चन्द्रतारायगण मण्डितं यथा न भक्षपायामलं विरजते नरेन्द्र मार्ग स सदा व्यरजत क्रमेण रम्भ्य शुभशिल्पी निर्मित इत्यार्थे श्रीमद् रामायणे वाल्मीकि अधिकाव्यद्याकाण्डे अशीतितमः सर्गः श्रीसीतारामचन्द्रार्वमस्तु